श्रीमन महाभारतं आदि वासिष्ठे महात आदिपर्व चैत्ररथपर्व वासी सौदासुत्पत षट्त्यमोध्यांधर्व उच तथ्वाश्रम पदम तैस्ुतर्मुन निर्जगामसु दुखा पुनरप्याश्र त सोऽपश्यत्सरितम् पूर्णाम् प्रावृत्कालेन वाम्भसा वृक्षान् बहुविधान् पार्थहरन्तीं तीरजान् बहून् अथ चिन्ताम् समापेदे पुनः कौरवनन्दना अम्भस्य स्यानि मज्जेयमिति दुःखसमन्वितः ततः पाशैस्तदात्मानम् गाढम् बद्ध्वा महामुनिः तस्या जले महानद्यानि ममज्जसुदुःखितः अथ छित्त्वा नदीपाशांस्तस्यारिबलसूदनस्थलस्थं तं ऋषिं कृत्वा विपाशं समवासृजत् उत्ततारततः पाशैर्विमुक्तः स महान् विपाशेति च नामास्या नद्याश्चक्रे महान् शोकबुद्धिं तदा चक्रेण चैकत्र व्यतिष्ठत सोगच्छत्पर्वतांश्चैव सरितश्च सरांसि च दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा चण्डग्राहवतीं भीमां तस्याः स्रोतस्य पातयत् सातमग्निसमं विप्रमनुचिन्त्य सरिद्वरा शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ततस्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ